च्वांश पृ कुशल त्र परस्परस कथा ते सुमतिर्वाक्यं व्याजहार महा मुनिम भद्रं ते देतुलल्यपराक्रमौ गज सिंहती वीरौ शादूल वृषभपम पद्मत्र विशालाक्ष खड्गतूनुर्धर अश्विनावेण समुस्थितौवनौ यदृच्छयैव गाम् प्राप्तौ देवलोकादि वामरौ कथम् बध्यामिह प्राप्तौ किमर्थम् कस्य वा मुने भूषयन्तापि मन्देशम् चन्द्रसूर्याविवाम्बरम् परस्परेण सदृशौ प्रमाणेऽङ्गितचेष्टितैः किमर्थम् च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि परायुधरौ वीरौ श्रोतुमिच्छामि तस्य तद्वचनम् श्रुत्वा यथा वृत्तम् न्यवेदयत् सिद्धाश्रमनिवासम् च राक्षसानाम् वधन् यथा विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः अतिथिपरमम् प्राप्तौ पुत्रौ दशरथस्य तौ पूजयामास विधिवत् सत्कारार्हौ महाबलौ ततः परमसत्कारम् सुमतेः प्राप्य राघवौ पुष्य तत्र निशामेकाम् जग्मतुर्मिथिलान्ततः ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् साधु सा द्विनिशंसन्तो मिथिलाम् समपूजयन् पवने तत्र आश्रमं दृश्य राघवः पुराणम् निर्जनम् रम्यम् पप्रच्छमुनिपुङ्गवम् इदमाश्रम सङ्काशम् किम्विदम् मुनिवर्जितम् श्रोतुमिच्छामि भगवन् कस्यायम् पूर्व आश्रमः तच्छ्रुत्वा राघवेणोक्तम् वाक्यं वाक्यविशारदः प्रत्युवाच महाते च विश्वामित्रो महामुनिः हन्त ते कथयिष्यामि शृणुतत्त्वेन राघव यस्यैतदाश्रमपदम् शब्दम् कोपान् महात्मनः गौतमस्य नरश्रेष्ठपूर्वमासीन्महात्मनः आश्रमो दिव्यसङ्काशसुरैरपि सुपूजितः स वर्षपूगान्यनेकानि राजपुत्रमहायशः तस्यांतरं विदित्वा च सहस्राक्षः शचीपतिः मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत् ऋतुकालम् प्रतीक्षन्ते सङ्गमम्त्वहमिच्छामि सहसुमध्यमे मुनिवेशं सहस्राक्षं मे मुनिवेषम् सहस्राक्षम् विज्ञाय रघुनन्दना मतिम् चकारदुर्मेधा देवराजकुतूहलात् अथाब्रवीत्सुरश्रेष्ठम् कृतार्थेनान्तरात्मना कृतार्थास्मि सुरश्रेष्ठगच्छशीघ्रमितः गच्छ आत्मानम् माम् च देवेश सर्वथा इन्द्रस्तुप्रहसन्वाक्यमहल्यामिदमब्रवीत् प्रहसं परितुष्टोऽस्मि गमिष्यामि यथागतम् एवम् सङ्गम्य तु तदा निश्चक्रामोऽटजात्ततः स सम्भ्रमात्वरम् रामशंकितो गौतमं प्रति गौतमं सददर्शाथ प्रविशन्तम् महामुनिम् देवदानवदुर्धर्षम् तपो बलसमन्वितम् तीर्थोदकपरिक्लिन्नम् गृहीतसमिधम् तत्र सकुशम् मुनिपुङ्गवम् दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत् अथ दृष्ट्वा सहस्राक्षम् मुनिवेषधरम् मुनिः पेततुर्वृषणो भूमौ सहस्राक्षस्य तत्क्षणात् तथा शप्त्वा च वैशक्रम् भार्यामपि च शप्तवान् इह वर्षसहस्राणि बहूनि निवसिष्यसि वातभक्षाणिराहारा तप्यन्ति भस्मशायिनी अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि यदा त्वे तद्वरम् घोरम् रामो दशरथात्मजः आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता मत्सकाशम् उदायुक्ता स्वम् वपुर्धारयिष्यसि एवमुक्त्वा महातेजा गौतमो दुष्टचारिणी इममाश्रममुत्सृज्य सिद्धचारणसेविते हिमवच्छिखरे रम्ये तपस्तेपे महातपाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बाकांडे अठाचत्ंश